बृहदारण्य उपनिषत् अध्यायं फैव् 1 ओम ओ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते खम् ब्रह्मखं पुराणं वायुरङ्कमिति हस्मा कौरव्यायणीपुत्रो वेदोऽयं ब्राह्मणा विदुर्वेदैनेन यद्वेदितव्यम् इति पञ्चमोऽध्याये प्रथमं ब्राह्मणम् ओन् बृहदारण्य उपनिषत् अध्यायं फैव् ब्राह्मणं तु ओ त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुर्देवा मनुष्या असुरा उषित्वा ब्रह्मचर्यन् देवा ऊचुर्ब्रवीतु नो भवानिति तेभ्यो द ्यज्ञासिष्ठा यदि दाम्यते दिन आधेत्योमिति होवाच व्यज्ञासिष्ठेति अध हैनं मनुष्या ऊचुर्ब्रवीतु नो भवानिधि तेभ्यो हैददेवाक्षरमुवाचद इति दिव्यज्ञासिष्ठा यदिव्यज्ञासिष्मेदिहो जोर्दत्तेदिन आध्येत्यो मिदिहोवाच्यव्यज्ञासिष्ठेति अध हैनमसुरा ऊचुर्ब्रवीतु नो भवानिदि यदिव्यज्ञासिष्ठा यदिव्यज्ञासिष्मेदि होजोर्दयध्वमिति न आध्येत्योमिधि हो, हो वाजव्यज्ञासिष्ठेदि तदे तदे वैशादैवी वागनु वदधिस्तन यत्नोर्द दद इति दाम्यददत्तदयध्वमिति तदे तत्र यगुं शिक्षेद्दमन्दानन्दयामिति इति पञ्चमोऽध्याये द्वितीयं ब्राह्मणम् ओ बृहदारण्य उपनिषत् अध्यायं 5 ब्राह्मणं 3 ओ एष प्रजापतिर्यद्धृदयमेतद्ब्रह्मै तत्सर्वं तदेतत् त्र्यक्षरगुं हृदयमिति हृ इत्येकमक्षरमभिहरन्त्यस्मै स्वाश्चान्ये चय एवं वेदध इत्येकमक्षरन् दधत्यस्मै स्वाश्चान्ये चय ं वेद यमित्येगमक्षरमिधि स्वर्गल्लोकय्य एवं वेद इति पञ्चमोऽध्याये तृतीयं ब्राह्मणम् ओ बृहदारण्य उपनिषत् अध्यायं फैव् ब्राह्मणं फोर् ओ तद्वैतदे ददेव तदा स सत्यमेव स योगैदं महध्यक्षं प्रथमजं वेद सत्यं ब्रह्मेधि जयधीमाल्लोकाञ्जिद इन्वसावसद्य एव मेदन्महध्यक्षं प्रथमजं वेद सत्यं ब्रह्मेधि सत्यगृह्येव ब्रह्म इति पञ्चमोऽध्याये चतुर्थं ब्राह्मणम् ओ बृहदारण्य उपनिषत् अध्यायं फैव् ब्राह्मणं फैव् ओ आपये वेदमग्र आसुस्था आप सत्यम ब्रह्म ब्रह्म प्रजापदिं प्रजापदे देवागुस्ते देवा, देवा सत्यमेवोपासदे तदे द्रि अक्षरगुं सत्यमिति स प्रथमोत्तमे अक्षरे सत्यं मध्यदो नृदन्तदेतदनृदमुभयदः ता सत्येन परिगृहीतगुं सत्यभूयमेव भवति नैनं विद्वागुं समनृदगुं हिनस्ति तद्यत्तत्सत्यमसौ स आदित्योय एष एतस्मिन्मण्डले पुरुषो यश्चायन्दक्षिणेक्षन् पुरुषस्था वेदा वन्योन्यस्मिन् प्रतिष्ठितौ रश्मिभिरेषोऽस्मिन् प्रतिष्ठितः प्राणैरयममुस्मिन् स यतोत्क्रमिष्यन् भवति शुद्धमेवैदन्मण्डलं पश्यति नयनमेदे रश्मयः प्रत्यायन्ति येष एतस्मिन्मण्डले पुरुषस्तस्य भूरिदिशिर एकगुंशिर एकमेतदक्षरम्भुव इति बाहु द्वौ बाहु द्वे येदे अक्षरे स्वरिदिप्रदिष्टा द्वे प्रदिष्टे द्वे येदे अक्षरे तस्योपनिषदहरिदि हन्दि पाप्मानं जहादि चय एवं वेद योऽयं दक्षिणे क्षन् पुरुषस्तस्य भूरिधिशिर एकगुंशिर एकमेदक्षरम्भुव इति बाहु द्वौ बाहु द्वे येदे अक्षरे स्वरिति प्रदिष्ठा द्वे प्रदिष्टे द्वे येदे अक्षरे तस्योपनिषदहमिति हन्दिपाप्मानं जहादि चय एवं वेद इति पञ्चमोऽध्याये पञ्चमं ब्राह्मणम् ओ बृहदारण्य उपनिषत् अध्यायं फैव् ब्राह्मणं सिक्स् ओ मनोमयोऽयं पुरुषो भा सत्यस्तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो एष सर्वस्येषा नः सर्वस्याधिपतिस्सर्वमिदं प्रशास्ति यदिदं किञ्च इति पञ्चमोऽध्याये षष्ठं ब्राह्मणम् ओ बृहदारण्य उपनिषत् अध्यायं 5 ब्राह्मणं 7 ओ विद्युद्ब्रह्मेत्याहुर्विदानाद्विद्युद्विद्यत्येनं पाप्मनो य एवं विद्युद् ब्रह्म विद्युद इति पञ्चमोऽध्याये सप्तमं ब्राह्मणम् ॐ बृहदारण्य उपनिषत् अध्यायं फैव् ब्राह्मणम् एट् ओम् वाजन्धेनुमुपासीद तस्याश्चत्वारस्तनाः स्वाहाकारो वषट्कारो हन्धकारस्वधाकारस्तस्य द्यौ स्तनौ देवा उपजीवन्ति स्वाहाकारं जषट्कारं जकन्धकारं मनुष्या स्वधाकारं पितरस्तस्याः प्राणऋषभो मनो वत्सः इति पञ्चमोऽध्याये अष्टमं ब्राह्मणम् ॐ बृहदारण्य उपनिषत् अध्यायं फैव् ब्राह्मणं नयन् ओम् अयमग्निर्वैश्वानरो योऽयमन्धःपुरुषे येनेदमन्नं पच्यदे यदिदमध्यदेत्तस्यैषघोषो भवति यमे धत्तर्णावभिधाय शृणोति स यदोत्क्रमिष्यन् भवति नैनन् घोषगुं यदि इति पञ्चमोऽध्याये नवमं ब्राह्मणम् ओ बृहदारण्य उपनिषत् अध्यायं फैव् ब्राह्मणं टेन् ओम् यदा वै पुरुषोऽस्माल्लोकात् प्रैदिसवायुमागच्छति तस्मै स तत्र विजिहिदेयथा रथचक्रस्य खन्देन स ऊर्ध्व आक्रमदेश आदित्यमागच्छति तस्मै स तत्र विजिहिदे यथा लम्बरस्य खन्देन स ऊर्ध्व आक्रमदे स चन्द्रमसमागच्छति तस्मै तत्र विजिहीते यदा दुन्धुभे खन्देन स ऊर्ध्व आक्रमदे स लोकमागच्छत्यशोकमहिमन्तस्मिन्वसति शाश्वतीस्समाः इति पञ्चमोऽध्याये दशमं ब्राह्मणम् बृहदारण्य उपनिषत् अध्यायं फैव् ब्राह्मणम् इलेवन् ओ एद्वै परमं यद्व्याहि तस्तप्यदे परमगुंहैवलोकं जयधिय एवं वेदै तद्वै परमं तपोयं प्रेतमरण्यगुंहरन्ति परमगुंहैवलोकं जयधिय एवं वेदै तद्वै परमं प्रेतमग्नावभ्या दधति परमघं हैवलोकं जयधिय एवं वेदा इति पञ्चमोऽध्याये एकादशं ब्राह्मणम् ॐ बृहदारण्य उपनिषत् अध्यायं फैव् ब्राह्मणं ट्वेल्व् ओम् अन्नं ब्रह्मेत्येक आहुस्तन्न तथा पूयदि वा अन्नमृदे प्राणात्प्राणो ब्रह्मेत्येक आहुस्तन्न तथा शुष्यदि वै प्राणहृदे देहत्येव देवते एकधा भूयं भूत्वा परमदा गच्छतस्तग्धस्माः प्रादृदः पितरन् किग् स्विदेवैवं विदुषे साधु कुल्यां किमेवास्मा असाधु कुर्यामिति स हस्मा पाणिना माप्रादृदकस्वेन योरेकथा भूयं भूत्वा परमदां गच्छतीति तस्मा उ हैदुवाच वीथ्यन्न वैव्यनेीमा सर्वाण भूताने वीटा रमिधी प्राणो वैर प्राणेहिमा सर्वा भूता रमंदे सर्वाण कवा अस्ूता सर्वाणी भूतानी रमदेयद इति पञ्चमोऽध्याये द्वादशं ब्राह्मणम् ओ ब्राह्मणं तर्टीन् ॐ उग्धं प्राणो वा उग्धं प्राणोखीदगं सर्वमुद्धापयत्युद्धास्मादुग्ध वीद्वीरस्तिष्ठत्युग्धस्य सायुज्यगुं स लोकदाञ्जयधिय वेद इति त्रयोदश ब्राह्मणम् बृहदारण्य उपनिषत् अध्यायं फैव् ब्राह्मणं फोर्टीन् ॐ भूमिरन्तरिक्षन् द्यौरित्यष्टावक्षराण्यष्टाक्षरगुं ह वा ये गङ्गायत्र्यैपदमे ददु हैवास्य एतत् स यादेषु तावद्धजयधियोस्याेदेवं पदं वेद ऋचो यजोगंषि सामानीत्यष्टावक्षराण्यष्टाक्षरगंह वा ये गङ्गायत्र्यै पदमेददुहैवास्यायेतत्स यावदीयन्त्रै विद्या तावद्धजयधियोस्या एददेवं पदं वेद प्राणो प्राणोपानो व्यान इत्यष्टावक्षराण्यष्टाक्षरगुंहवा ये गङ्गायत्र्यै पदमेतदुहैवास्यायेदत्स यावदिदं प्राणि तावद्धयधियोस्या ये ददेवं पदं वेदास्य एदेव तुरीयन्दर्शदं पदं परो रजाय एष तपदि यद्वै चतुर्धन् तत्तुरीयन् दरिशदं पदमिति ददृश इव ह्येष परो रजा इति सर्वमुह्येवैष रज उपर्युपरि तपत्येव गुं हैव यशसा तपदि यो स्या एदेवं पदं वेद सैषा गायत्र्ये तस्मिग् स्थुरी ये दर्शदे पदे परो रचसि प्रतिष्ठिता तद्वै तत्सत्ये प्रतिष्ठितं चक्षुर्वै सत्यं चक्षुर्हि वै सत्यं तस्माद्यदिदानीं द्वौ विवदमानावेयादमहमदर्शमहमश्रौषमिति य एवं ब्रूयादहमदर्शमिति तस्मा तद्वै श्रद्ध्यास्यम बले प्रतिष्ठि सत्यादीय वैशा गायत्रीध्यात्म प्रतिष्ठिता साइा गयागस्त प्राण वै गयागस्त तद्यद्गयागस्तत्रे तस्माद्गायत्री नाम सयामेव मोगुं सावित्र्यमन्वाहैशैव सा स यस्मा अन्वाहतस्य मनुष्टुभमन्वाहुर्वागनुष्ठुवेत्तद्वाजमनुब्रोम यदि न तथा कुर्याद्गायत्रीमेव सावित्रीमनुब्रूयाद्यधिह वा अप्येवं विद्बिवक्प्रति गृह्णादिन हैव तद्गायत्र्या एकञ्चनपदं प्रति सय इमागस्त्रिलोकान् पूर्णान् प्रदि गृह्णीयात्सोस्या ये तत् प्रथमं पदमाप्नुया दध यावदीयन्त्रयी विद्या यस्तावत्प्रदि गृह्णीयात्सोस्या ये दद्वितीयं पदमाप्नुया दध यावदिदं प्राणी यस्तावत् प्रदि गृह्णीयात्सोस्या ये तृतीयं पदमाप्नुया दधास्याये ददेव तुर्यन्तरिषदं पदं परो रजाय तपदि नैव केनचनाप्यङ्कुत उ येदावत्प्रदि गृह्णीयात् तस्य उपस्थानं गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पद्यपदसि न हि पद्यसे नमस्ते तुरियाय दरुशदाय पदाय परो रजसे सावदोमा मा प्रापदि दसावस्मै कामोमा मा दिवान वा हैवास्मै स कामः समृद्ध्यदे यस्मा एवमुपतिष्ठितेह मदप्रापमि दि ये दद्ध वै तज्जनगो वैदेहो बुडिलमाश्वतराश्विमुवाच यन्नुहो तद्गायत्रीविदब्रूधा अध कथगुं हस्तीभूतो वहसिति मुखगृह्यस्या सम्रान्नविदाञ्चकारेदि उवाच तस्या अग्निरेव मुख हवा अपि बह्विवाग्नावभ्या दधति सर्वमेव तत्सन्दहत्येवगुं हैवैवं विद्यपि बह्वीव पापं कुरुदे सर्वमेव तत् संसाय जरो मृदः सम्भवति यदि पञ्चमोऽध्याये चतुर्दशं ब्राह्मणम् ओ बृहदारण्य उपनिषत् अध्यायं 5 ब्राह्मणं 15 ओं हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखं तत्त्वं पूषन् सत्यधर्माय दृष्टये पूषन्ने कर्षे यमसूर्यप्राजापत्यव्यूह रश्मीन् समोह तेजो रूपं कल्याणतमन् तत्ते पश्यामि योऽसावसौ पुरुषसोऽहमस्मि वायुरनिलमममृतमधेदं भस्मान्तगुं शरीरम् ॐ कृदो स्मर कृदग् स्मर क्रदो स्मर कृदग् स्मर अग्ने राये नयुपस्मश्वा विश्वानि देव मे विद्वान भूयिषा ते नाम उक्रीम विधेम पंचमोध्याये पंचम पंचदशम ब्राह्मणमि बृहदारण्यकोपनिषद पञ्चमोऽध्यायः ओ